ग्ननं ज्योतिरग्निर्देवतानां ज्योतिर्विराटन्द्योतिर्विराट्वाचो विराजमभिसम्पद्यते तस्मात्तरुच्यते द्वौ स्तो प्राणश्चापानश्च द्वौ माद्यन्ति यथा चक्षुश्च श्रोत्रं चौचिकवनं यथा वाक्षप्रतिष्ठा चितो वा एष ज्ञ ष्टो मेनैव परिजगृह्णात् तासां परिगृहीतानामश्वतप्रवतस्यानुगर्दस्माहाता अथो आहुमार्डिरेता प्रजा स्मादोषयो प्रजागता सर्ववेदसेवा सहस्रेवाय एवं विद्वान् प्रजाता गृह्णाति तस्मादाहुज्य यत्रेखतोशं निरमि दतमिन्द्रो देवतान्भसृज्युप् मनुष्याणामविष्पसोनान्तस्मात्तर्यान्दो वीर्याः च सृजन्तमध्यतः सप्तदशं निरमिततं विश्वे देवा देवता अम्बसृजन्त जगति छन्दो वै रूपं साम वैश्व मनुष्याणां गा था वःपसोनान्तस्मात्त आद्या अन्नधानाच्य सृजन्त तस्माद्भूयानुं सौम्येभ्य भूयिष्ठा था हि देवता अम्ब सृजन्त पत्तने ुच्छोन्वसृजत वै राजगुंसामशूष्याः पशूना कौ भूतसङ्क्रामि नामश्वश्च शूद्रश्च तस्मान्वसृज्यत तस्मात् पादामुपजीपदः सृजयतान् प्राणा वै त्रिवमासाः पञ्चदशः प्रजापतिः सप्तदश वा नित्यरेकविधंस एतस्मिन् वा एते श्रितारेतस्मिन् प्रतिष्ठिता यदेवम् वेतैतस्मिन्नेव श्रजत एतस्मिन् प्रतितिष्ठति त्वादः समनैवैका यत्रेण छन्दसा त्रिवृते स्तोमा यज्योतिर्दधदेति त्रिवृताः ब्रह्म व्यत्यसेन पञ्चदशा यज्ञोतिर्दध देति पञ्चदशेनौजसाेण सप्तदशा यज्ञो निर्दधदेति सप्तदशेन प्राजापत्येन प्रजननेनैकिगुंसा यज्ञो निर्दधदेति स्तोमये तत् स्तोमा योज्यो यदहरेत्यथो स्तोम एव स्तोममधिप्रणगतिनावन्तोपै स्तोमास्तावन्तः कामास्तावन्तो लोकास्तावन्ति ज्योतिगृष्येतावत एव स्तोमानेतावतःकामानेतावतो लोकानेतावन्ति ज्योतिगृष्यवरुन्धे ब्रह्मवादिना वजन्ति सत्त्व यजे तजोगोऽष्टो मे न यजमानो च सर्वस्तो मे न यस्य त्रिवृतमन्तर्यन्ति प्राणास्तस्यान्तर्यन्ति प्राणेष्वमेप्य सदिति खलु वै यज्ञे यजमानो यज तेजस्य पञ्चदशमं तर्यन्ति वीर्यन्तस्यान्तर्यन्ति वीर्येप्य सदि तिखलमै यज्ञेन यजमानो यज यस्य सप्तदशमं तर्यं दि प्रजायां मेऽप्य सति यज्ञेन यजमानो यज देयस्थैकितुं समन्तर्यन्ति प्रतिष्ठां तस्यान्दर्यन्ते प्रतिष्ठायां मेऽप्यसदिति यज्ञेन यजमानो यज दैर्गस्य त्रि नवमं दर्यं च दुर्गश्च तस्य च विराजमन्दर्यन्ति ऋषुमेप्य सन्नक्षत्रियायां यजमानो यज दैर्गस्य त्रयस्त्रितुं समन्तर्यन्ति ेवतास्तस्यान्तर्यन्ति देवतासुमेऽप्य सति खलु वै यज्ञेन गजमानो यज ते यो वै स्तोमानामम् परमताम् गच्छन्तम् वेद परमतामेव अङ्गिलसौमै सत्रमासते सुवर्गं लोकमायन्ते हागुम् हविष्माङ्गिश्च हविष्कृच्चाहे कान्तादकामजे कागुं सुवर्गं लोकनीया वेदिता वेदन्ति रात्रमपश्यतान्तमाहरतान्तेनायचे कान्ततो मुत्तरणाभिप्लवः पूर्वमहद्भवति गतिरुत्तरं चोमोऽष्टोमः पूर्वमहद्भवति तेजस्तेनावरुन्धे सर्वस्तोमोदिरात्रमुत्तरं सर्वस्यात्यै सर्वस्यावरुध्यैकायत्रं पूर्वे सा जयेन वीर्यमात्मम् धत्तेन सन्तरम् पूर्वेऽहम् सम भवती धरमस्यामेव प्रतिष्ठति बृहदुत्तरे सो वै बृहदमुष्यामेव प्रतितिष्ठति तदाह् जगती चानुष्टुप् चेति वै खानसम् पूर्वेहं सम भवति येन जगत्येनैति षोडश्चुत्तरे तेनानुष्टुभोत्साहृजत्समानेऽर्धमासे चैत्यमावास्यागाम् पूर्वमहर्भवत्युत्तरस्मिन्नुत्तरम् नानैवार्धमासयो नानावीर्ये भवतो हविष्मन् निधनम् पूर्वमहर्भवदि हविष्कृन्निधनमुत्तरम् प्रतिष्ठित्यै युदमग्रे षडि नमासेत्तस्मिन् प्रजापतिर्वाजुर्भो त्वा चिमामपश्यताम्बराहो भूत्वा हरत्तां विश्वकर्मा भूत्वां तस्यामश्रां यत्प्रजापतिः स देवानसृज तपसोः भुद्राणादित्यान्ते देवाः प्रजापतिमभु प्रजायामहासोः यष्मायस्त ृक्ष्येवत्येभ्यः प्रागच्छन्मेकागं रक्षध्वमिति तां वसवो रुद्रा आदित्य अरक्षन्तसाभ्य रुद्रेभ्य आदित्येभ्यः प्राजायत त्रीणि च शतानि त्रयस्त्रि पञ्चाथैव सहस्रतम्य भवत्ये प्रजापतिषोष्टो मे नवसो न याचयत्यजिमङ्गागमजयन्दच्छादुस्वक्षे नग्रा न जाय यत्तेऽन्तरिक्षमज यन्दच्छादुःस्थोदिरात्रेणादित्यानजात यत्ते मङ्गोगमज यन्तच्चादुस्तदन्तरिक्षम्यवैरि श्रीशिलं मे त्येषान् लोकानामनुसन्तविच्छिन्द्यान् विराजन्येदृच्छिनदानेत्य सजा सहस्रसंन्यासेत्तस्यामिन्द्रश्च विष्णुश्च विगच्छेता पुंस इन्द्रमन्यजा बाजितं विष्णुः सहस्रं वर्क्ष्यतस्यामगल्पे तान्द्रिभाग इन्द्रीजयस्तम्बाजयतामच्छा वागेव मे साहोत्रे दे ये दि होतादम्बा त्यापजिताथाहुरुं नेत्रस्यातिरिक्तहुस्सर्वे येत्यसाहुरुदाकृपसञ्च दे नित्यसाहुर्ब्रह्मणे चानिधे च देयुभागं ब्रह्मणे त्रिजेदमग्निधन्द्रो वैर्ब्रह्मा वैष्णो नेद्यतापकल्प्येतामित्यथाहुर्याकुल्याने बहुरूपा त्य भय तदीसा देयेति सहस्रस्य परिगृहेत्यैतद्वारे दे तत्सहस्रस्याजनकम् जा सहस्रग्रस्तोत्रिया सहस्रम् दक्षिणाः सहस्रसंमितस्व भर्गो लोकस्सु भर्गस्य लोकस्याभिजित्यै स्वमो वै सहस्रमविन्दत्तमिन्द्रान्वन् दत्तौ यमोऽन्यागच्छत्तावद्रभेदस्तु मे रात्यस्तु कीर्त्यमृतागुं स जमजे कस्याम् परितमश्चिजम् वा अस्य सहस्रस्येतजोतस्याम् परिपश्यामो समाहरामहादि पश्यामगुं समाहरन् ददामप्सुप्रापे सोमाजो देहेति सारोदिने पिङ्गलैकहा जने रूपम् धृत्वा त्रयस्त्रिगुः सदा च त्रिभिश्च शतैः सहोदये तस्माद् द्रोहिण्या पिङ्गलजैकहायन्यासोमङ्ग्रेणी द्रोहिण्या पिङ्गलजैकहायन्यासोमङ्ग्रेणादित्रयस्त्रिगिंशता चैवाश्च त्रिभिश्च शतैः सोमस्त्रेतोभेन यज देतामप्सुप्रादेशजन्निन्द्राजो देहे द्विसारोहिणी लक्ष्मणापिष्ठौ वार्त्रग् दे दे ैः सहोगयेत् तस्माद् रोहिण्यं विद्वान् रोहिण्यं लक्ष्मणां पष्ठौहित्रयस्त्रिंशचता दिशा दत्ता भवति राम सुप्रावशयन यमायोजयि दिशा जरति मूर्खाद्यारूपं कृत्वा त्रयस्त्रियं च त्रिभिश्च मूर्खान्तज्जघ्यामनस्तरणे कुर्वेदय एवं विद्वान्तरते ङ्गामनुस्तरणे कुरुते त्रयसृगं सच्चैवास्य त्रीणि च शतानि सामुष्म्यल्लोदे भवति वागेव सहस्रमणि तस्माद्वरोदे यस्साहि वरः सहस्रमस्य सा दत्ता भवति तस्माद्वरोनप्रतिगृह्यस्याहि वरः सहस्रमस्य प्रतिगृहीतं भव दीरम्बरति ब्रूजा तान्यां ब्रूं ममेति तथास्य तत्सहस्रमप्रतिगृहीतं भवत्यभयी स्यात् ैव कल्याणी रूप समुद्धरस्सृद्धयितामुत्तरणावघ्रातिमुद्रमिपसिन्धवः सामासहस्रजया पशुभिः सह पुनर्माभिषता भवति गदेवम् वेदतया सहाम् परेत्य पुरस्ताः प्रतीक्ष्यान् तिष्ठन्त्याञ्जहुजा स्वर्णपराजय चयनपराजिज्ञगतरश्चनयनोः इन्द्रश्च विष्णो जपस्पथे सान्त्रेधा सुब्रूदादितिदेवेऽध्यदेवै नमावेदयत्यण्डेणम् देवाबुध्यन्ते स्वसंज्ञा वैद्यमानस्वर्गं वागमे दसैमं सुवर्गं वा गङ्गमयतिसामासुवर्गं वागङ्गमदेत्याहसुवर्गमेवैमं वा गङ्गमयतिसामाज्योतिष्मन्तं वा गङ्गमदेत्याहज्योतिष्मन्तमेवैमं वागङ्गमयतिसामा सर्वान् पुण्याः वागाङ्गमदेत्याह सर्वानेवेनम् ङ्गमयति सामाः प्रतिष्ठाङ्गमय प्रजया पशुभिः सह परमाभिषदा भजयति प्रजयैवैनं पशुभिदय्यां प्रतिष्ठा भजति प्रजामाहान् वशुमान् भजमान् भगवतिगजैवं वेदतामग्निधे मां ब्रह्मणे माहोत्रे वोद्गात्रे वा सहस्रमस्य सा दत्ता भवति सहस्रमस्य प्रतिगृहेदं भवतान् प्रतिग्रन्हां प्रतिग्रन्थे दादेकासिनसहस्रमेकान् त्वा भूतां सहस्रमेका मा भूतापि समासहस्रमित्येकामेपयि भूतां प्रतिगृह्णादिनसहस्रं वेदना सुषदा सुषेवाः स्त्यो नामाविश सुषदामाविश सुसैवा मा विश त्याहस्यो नैवैनकं सुषदा सुषेवा भूता विशति नैनकं हिमस्ति ब्रह्मपादिमा वदन्ति सहस्रकम् सहस्रतं यन् वेति सहस्रा, गुं सहस्रा, गुं सहस्रा जेमुत्सृजेत्सहस्रकम् सहस्रतं यन् वित्सहस्रमप्रज्ञात्रम् <laughs> सुगम् लोगन्न प्रजानीजात्सुजति पाकुम् सहस्रमनुभैजा वर्तते सा <laughs> प्रजानती गजमानमभ्युत्सृजति क्षिप्रे सहस्रम् प्रजाय तव उत्तमानीय समादेवान् गच्छति अत्रिरदालौर्वाय प्रजाम् पुत्रकामायशन्यत निर्मे र्यश्रिशिलाजातया मासजेकं च दोराक्रमपश्चमाहदत्तेनायज ततो वैतस्य चत्वारो वीरा आचार्यो दासोद्गादास्वध्वरजुस्तु सभे योजयेकं विद्वाविरात्रेण वीराजायन्तेऽसुहो दासोहोद्गादास्वध्वरजुस्तुसभे योजे चतुर्थिपुंसापमा ब्रह्मवर्जसन्दद्य तो मा श्रीस्वातृभ्य श्रुभाग्यत्वारि वीर्याणि नोपानमन्ते जन्द्रियम् ब्रह्मवर्चसमन्नाद्यंस देताश्चतुरश्चतुष्टो मान् सोमानवश्च यजत तेज देव प्रथमे मावारुन्धेन्द्रज द्वितीरे ब्रह्मवर्चसं कृतिरे मानाद्यन्तज देवं विद्वागश्चतुरश्चतुष्टो मान् ैकप्रथमेनावरुन्धैन्द्रियम् धृतेन ब्रह्मवर्तसम् धृतीरेमाद्यन्तदुर्ध्यजामेवा त्रिलध्यमाध्मात्तामेव यजमानरुध्मादि जमदग्न्यः पुष्टिकामश्चतु रात्रेण यजत सजतान् पोषाणुम् अपुष्यत्तस्माहात् परितौ जामदग्निदौ न सञ्जाना ते एतानेव पोषाहान् पुष्यतिगजैवं विद्वागच्छतु रात्रेण जजते पुरोढासिन्यपुपषतो भवन्ति पुशो वैपुरोडासः पशोनैवावरुन्धेन्नम् वैपुरोडासोऽन्नमेवावरुन्धेन्नादः पशुमान्भवधिगजैवं विद्वादिष्ठतो पात्र संवत्सरो वा इदमेक आसीत् सोगामय तर्तून् सृजयजयति स एतं पञ्चरात्रमपश्यप्तमाहरत्तेना यज ततो वै स ऋतून सृज नय विद्वान् पञ्चरात्रेण यते प्रैवजायते तृतवसृष्टानव्यावर्तन्तत एतं पञ्चरात्रमपश्यन्तमाहनन्देना यजन्तरतो वै देव्यावर्तन्तय एवं विद्वान् दे पञ्चरात्रेण यते विपात्मनाभ्र दुर्येण वर्तते सार्वसेनिश्रौसेदो गामयत पशुमान्स्यामि दिसजेदं पञ्चरात्रमाहरत्तेन यद तत्तो वैष सहस्रं पसून् प्राप्नोद्य देवं विद्वान् पञ्चरात्रेण यद् प्रसहस्रं पसूनाप्नोलिवरः प्रावाहय गामयत वाचः प्रवदितास्यामि दिस येदं पञ्चरात्रमाहरत्तेन यद तत्तो वै स पाचः वां पञ्चरात्रे न यजते प्रवतिरेव वाचो भवत्यथोजेन वाचस्पतिरित्याहुरणाप्तश्च रात्रोऽक्तत्रोऽथवादेश संप्रति यज्ञो यत्पञ्चरात्रो जदेवं विद्वां पञ्चरात्रे न यजते संवृत्येव यज्ञे न यजते पञ्चरात्रो भवति पञ्चवादितवः संवत्सर ऋतुष्वेव संवत्सरे प्रतिष्ठत्यथो पञ्चाक्षरा ङ्को यज्ञो यज्ञमेवावरुन्ध त्रिवृदज्ञष्कोमो भवति त्यजितेवावरुन्ध पञ्चदशो भवतीन्द्रियमेवावरुन्ध सप्तदशो भवत्यन्नाद्यस्यावरुद्ध्याथो प्रैवतेन जायते पञ्चपुंसोः भवति प्रजापतराप्ति महाप्रतमानन्नाद्यस्यावरुद्धे विश्वजित् सर्वपृष्ठो दिरात्रो भवति देवस्य त्वादविदःप्रसवेश्विना बाहुभ्याम् पूष्मा हस्ताभ्यामादज निमामग्रघ्नन्दशनामृतस्य पूर्व आयुषि विदशेषु कव्या तया देवास्तु तमा मघोवलवृतस्य साम् अभिधासि भुवनमसि दन्तासि धर्तासि सोऽ स्वानरंस प्रससम् गच्छ स्वाहाकृशविजायन्ताराज्यन्तासि यमनो धर्तासि धरुणः कृष्णे त्वा क्षेमाय जत्वा ऋय्ये त्वाघोषाय त्वा पृथविजये त्त्वान्तरिक्षाय त्वा दिवे त्वा, त्वा ता सते तासते त्वाद्यस्त्वेभ्यस्त्वा विश्वेभ्यस्त्वा भूतेभ्यः ोर्मात्रा प्रभोः पित्रास्वसिहयोश्चिनरौश्चर्वासि सप्तिरसि वाज्यसि मृषासि नृणासिमास्त्यादित्यानां वक्त्वा वि स्वाहा स्वाहेहन्द्रान्य ध्याय स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेम्भ्य स्वाहा सर्वाः भ्यो देवताः स्वा हे हरिसृज स्वा हे हरन् दि स्वा हे भूतेभ्यो देव आसापादा एतम् देवेभ्यं मेधाय आयणाय स्वाहा प्रायणाय स्वाहो द्यावाय स्वाहो दृताय स्वाहा शुकानाय स्वाहा सुभृताय स्वाहा पलायिताय स्वाहा अग्नदे स्वाहा सोमाय स्वाहा वाजवे स्वाहा वां मोदाय स्वाहा समित्रे स्वाहा सरस्वते स्वाहेन्द्राय स्वाहा बृहस्पृतरे स्वाहा मित्राय स्वाहा वरुणाय स्वाहा सर्वस्मै स्वाहा विदे स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्य स्वाहा प्राची दिशे स्वाहा दक्षिणादिशे स्वाहा प्रतीक्षे दिशे स्वाहो दीर्षे दिशे स्वाहोर्ध्वारि दिशे स्वाहा दिव्यस्वाहा वान्तशाभ्य स्वाहा स्वाहा जस्वाहा शरद्य स्वाहा होरात्रेभ्यस्वाहा मासेभ्य स्वाहा मासेभ्य स्वाहत्व स्वाहा संवत्सराय स्वाहा सर्वस्मै स्वाहा अग्नये स्वाहा सोमाय स्वाहा हरिद्रे स्वाहा सरस्वते स्वाहा घोष्णे स्वाहा बृहस्पतये स्वाहा वां स्वाहा वाय स्वाहा मित्राय स्वाहा वरुमाय स्वाहा सर्वस्मै स्वाहा स्वजृे स्वाहान्तरिक्षाज स्वाहा दिवे स्वाहा नजये स्वाहा सोमायस्वाहा सूर्यायस्वाहा चन्द्रमसे स्वाहा ञ स्वाहा रात्रिके स्वाहार्जवे स्वाहा साधवे स्वाहा सुक्षित्रे स्वाहा सु स्वाहा सुम्ने स्वाहा रोगा रस्वाहा हिमायस्वाहा सीतारस्वाहा तपाजस्वाहारण्याजस्वाहा सुवर्गा रस्वाहा agayaasthaa sarvasme swaaha स्य पथ्या शिवसुभिर्देवेभिर्देवतयागायत्रेण त्वाच्छन्दसा वसन्तेन त्वर्तुमा हविषा दीक्षयामि रुद्रेभिर्देवेभिर्देवतयात्रेष्पुभेन त्वा छन्दसायुनज्मि ग्रीष्मेण त्वर्तुमा हविषा दीक्षयाम्यादित्येभिर्देवेभिर्देवतजागतेन त्वा छन्दसायुनज्मि वरुषाभिस्तर्तुना हविषा दीक्षयामि विश्वेभिर्देवे भिर्देवतया नुष्टुभेन त्वा छन्दसायनज्मि शरदाः क्वर्तुना हविषादेक्षयां गङ्गिरोभिर्देवेभिर्देवतया जाहं दीक्षामरुहृदस्य पत्ने हिङ्गायत्र ण छन्दसा ब्रह्मणा चर्तगम् महीमोषसुत्रा माममिहति स्वाहे हविषति हर हरं दि स्वाहे ईङ्कारायस्वाहेङ्कृताय स्वाहा क्रन्दते स्वाहा वक्रन्दते स्वाहा प्रोथते स्वाहा प्रप्रोथत स्वाहा गन्धारस्वाहाघाता स्वाहा प्राणायस्वाहानायस्वाः पानायस्वाः सन्दीयमानायस्वाः सन्दिताजस्वाः विचित्यमानायस्वाः विचितारस्वाः परादिश्यमाणा यस्वाहा पलायिताय स्वाहोपरगृह्यते स्वाहोपरताज स्वाहा निवेक्ष्यते स्वाहा निविशमानाय स्वाहा सम्मेलते स्वाहा सम्मिलिताय स्वाहा स्वप्स्यते स्वाहा स्वपदे स्वाहा सुप्ताय स्वाहा स्वाहा प्रबुध्यमानाय स्वाहा प्रबुद्धाय स्वाहा स्वाहा जागृते यस्वाहा जागरिता यस्वाः शुश्रूषमाणा यस्वाः शृण्वते स्वाहा श्रुता यस्वाहा वीक्षिष्यते स्वाहा वीक्षमाणा यस्वाः वीक्षिता यस्वाः स्वाहा सन्धिहाना यस्वाहो जिहानायस्वाहा विवर्त्सते स्वाहा विवर्तमाना रस्वाः विवर्ताय स्वाहोत्थास्यते स्वाहोत्तिष्ठते स्वाहोत्थिताय स्वाहा स्वाहा विधोन्वानाजस्वाहा विधोताज स्वाहोक्रिष्यते स्वाहोक्रमदे स्वाहा चङ्क्रम्यमाणाजस्वाहा चक्रमिताजस्वाहा गण्डोयिष्यते स्वाहा गण्डोयमानाजस्वाहा गण्डोयिताजस्वाहा निघषिष्यते स्वाहा निकषमाणा रजस्वाहा निघषिता रस्वाहा स्वाहा जग्दिमदित तस्म स्वाहायन्मे हि तस्मे स्वाहाय छग्त्कस्मे स्वाहात स्वाहा प्रजाभ्य स्वाहा, स्वाहा, स्वाहा प्रजनना अग्नदे स्वाहा वायवे स्वाहा सूर्यायस्वाहर्तमःर्तमसि सत्यमसि सत्यस्य सत्यमस्मितस्य पन्था असि देवानाहायामृतस्य नाम तत्सत्यङ्गत्वम् मृजापतिरस्य धियदस्मिन् वाजिनी पशुभः स्पर्धन् दे दिवः सूर्यमलिषोरो पवते गव्यम् पशुम् न